गणेशाष्टकम् विनायकैःक भावना समर्चना समर्पितम् प्रमोदकैः प्रमोदकैः प्रमोद मोदमोदकम् प्रमोद प्रमोद मोद मोद यदर्पितम् समर्पितम् न वन्यधान्यनिर्मितम् न कृतम् सजातिकृद् विजातिकृत् स्वनिष्ठभेदवर्जितम् निरञ्जनम् च निर्गुणम् निराकृतिम् च निष्क्रियम् सदात्मकम् चिदात्मकम् सुखात्मकम् परम् पदम् भजामितम् गजाननम् स्वमाययात विग्रहम् गणाधिप त्वमष्टमूर्तिरेश सूनुरीश्वरः त्वमम्बरम् च शम्बरम् धनञ्जय प्रभज्वनः त्वमेव दीक्षितः क्षितिर्निसागरः प्रभाकरा शराचर प्रचार हेतुरन्तराय शान्ति अनेकदम् तमालनीलमेकदम् तरम् समस्त वेदवाद सत्कलापमन्दिरम् परम् महान्तराय दुस्तमस्य मार्गमाश्रितोदरम् सरत्न हेमघण्टिका निनाद शब्दतो विनायक शशाङ्कशेखराग्रतः प्रणृत्यति नमामिना गनायकैकनायकम् विनायकम् कलाकलापकल्पना निदानमादिपूरुषम् गणेश्वरम् गुणेश्वरम् महेश्वरात्मसम्भवम् स्वपादमूलसेविनामदारवैभवप्रदम् भजे प्रचण्ड तुम् दिलम् सदन्त शोकभूषणम् स नन्दनादिवन्दितम् समस्त सिद्ध सेवितम् सुरासुरौ भयोः सदा जय प्रदम् जयप्रदम् समस्त विघ्रघातिनम् स्वभक्त पक्षपातिनम् करामुजातकङ्कणः पदाब्ज किङ्गिनी गणो गणेश्वरो गुणार्णव पणीश्वराङ्गभूषणः जगत्त्रयान्तराय शान्तिकारकस्तु तारको भवान्न वादनेक दुर्ग्रहच्छिदेक विग्रहः यो भक्त प्रवणः परावर गुरो स्तोत्रे गणेशाष्टकम् शुद्धः संयत नित्यम् त्रिसन्ध्यम् कुमान् तस्य श्रीरतुला स्वसिद्धिसहिता श्रीशारदा शारदा स्याताम् तत्परिचारिके किल कदा ब्राह्मणानाम् कथा